गङ्गातरङ्गमणीय गौरी गौरीनिरन्तर विभूषित वामभागं नारायणप्रियमनङ्गमदापहारं वाराणसी पुरपतिं भज विश्वनाथम् वाचामगोचर मनेकगुणस्वरूपम् विष्णु वागीशविष्णुसुरसेवितपादपीठं वामेन विग्रहवरेण कलत्रवन्तं वाराणसी पुरपतिं भज विश्वनाथ भूताधिपं भुजगभूषणभूषिताङ्गं व्याग्राजिनां वरधरं जटिलं त्रिनेत्रं पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसी पुरपतिं भज विश्वनाथम् सीतां <laughs> सुशोभितकिरीट भाले क्षणानल विशोषित पञ्चबाणम् नागाधिपारचित भासुरकर्णपुरं वाराणसी पुरपतिं भज विश्वनाथम् पञ्चाननं दुरितमत्तमतङ्गजाना नागान्तकं दनुज पुङ्गवपन्नगानां दावानलं शोकजराटवीनां वाराणसी पुरपतिं भज विश्वनाथम् तेजोमयं सगुणनिर्गुणमद्वितीयम् आनन्दकन्दमपि राजितमप्रमेयम् नागात्मकं सकलनिष्कळमात्मरूपं वाराणसी पुरपतिं भज स्वजनानुरागं वैराग्यशान्तिनिलयं गिरिजासहायं माधुर्यधैर्यसुभगं गरलाभिरामं वाराणसी भज विश्वनाथं आशां ज विश्व आशा विघा परहृत्य पर निपेति सुनिवार मन सध आदा हृत्कम्याराणसीपति भज विश्वनाथं वाराणसी पुरपतेः स्तवनं शिवस्य व्याख्यातमष्टकमिदं पठते मनुष्या विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं सम्प्राप्य देहविलये लभते च मोक्षम् विश्वनाथाष्टकमिदं यः पठेत् शिवसन्निधौ शिवलोकमवाप्नोति शिवेन सह